चतुर्थोऽध्यायः श्रीभगवानुवाच इमम् विवस्वते योगं प्रोक्तवान् अगमं व्ययं विवस्वा मनवे परम्परा प्राप्तम् इमम् राजर्षयो विदुः सकालेनेद महता योगो नष्टः परन्तप रहस्यम् केतरुत्तमम् अर्जुनमुवाच अपरम् भवतो जन्म पर जन्म कथमे विवस्व कथमेतनीयाद प्रोत्तवा भगवाच बहूं व्यतीता जन्मा तवजाजुन तान्यगं वेद सर्वा नए थ पर तप Ajopi-san-auyayatma Mhuta-nām Ishvalopi-san-prakriti-mpswām Adhiśchāya-sambhavali-atma-māyayayatma भवति भारत अभ्युत्था जह किया देखा नेहं पुनर्जन्म नैति भय क्रोधाः मन्मया उपाश्रिताः भगवो ज्ञानतपसा पूता मध्वा पार्थ मनुष्याश का कर्मण सिंज देता प्रम् हि मानुषे नोके सिद्धिम् भवति गङ्गज कषः तस्य कर्तारमपि मा विध्यकर्तारम् अव्ययम् न मे कर्म फपृगा इं योजना कर्म भी न बध्यते कृतम् कर्म पूर्वैरपि मुमुक्षुभिः कुरु कर्मैव तस्मात्त्वम् पूर्वैः पूर्वतरम् कृतम् कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्ष्यसे शुभा कर्मणोऽपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः अकर्मणश्च बोद्धव्यम् अकर्म य पश्येत् अकर्मणि च कर्म यः स मनुष्येषु स युक्तः रूपे समानं भाः कामसङ्कल्पवर्जिताः ज्ञानाग्नि दग्धकर्माणम् तवाहुः पण्डितम् यत्त्वा कर्मफलासङ्गम् नित्यतृप्तो निराशयग कर्मणि अभिप्रवृत्तोपि नैव करोति सगा Jita Atma, Yadda Saru Aparigra Gaga, Shari Dam Kevalam Karma, Kurvalda Ploti Kilpisham दाभसंतुष्टो द्वंदतीमत्सर सीधा न निब्यते ए, ए, ए, ए सङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसखा यज्ञायाचरतः कर्म समग्रम् प्रविलीयते ेनैवोपयुग्वति श्रोत्रादीनि इन्द्रियाण्य संयमादिषु shabda <laughs> पी पी टी ुग्वतिण प्राणे पाना पर to be नायं लोकोऽस्ति अयज्ञस्य कुतोऽन्यः कुरु सत्तमा एवम् बहुविधायज्ञाः वितताः ब्रह्मणो मुखे कर्मजान्विद्धितान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे के के यज्ञात् ज्ञानयज्ञः परन्तपा सर्वम् कर्माखिलम् पा तत्विद्धि प्रणिपातेन परिप्रश्नेन ेवया उपदेक्षि ते ज्ञानम् ज्ञानिनः तत्त्वदर्शिनः Shedra Drakshya Syaan भ्यः पापकृत्तमख सर्वम् ज्ञान प्रवेणैव ऋजिनम् सन्तरिष्यसि तावत् संसिद्धः कालेनात्मनि विन्दति अज्ञश्च अश्रद्दधानश्च संशयात्मा विनश्यति नायम् लोपोऽस्ति न ना परो न सुखम् संशयात्मनः योगसन्न्यस्तकर्माणम् ज्ञानसञ्चिन्न संशयम् आत्मवन्तम् न कर्मा निबध्न भगन् सम्भूतम् हृत्स्थम् चित्वैनं चित्वैरम् योगं योपङ्गातिष्ठोऽनिष्ठ भा गीतासु उपनिषत्सु ब्रह्मविद्याया योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसन्न्यासयोगो नाम चतुर्थोऽध्यायः